मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायं ट्वेण्टि फोर् गाणपत्यस्वरूपवर्णनम् श्रीगणेशाय नमः मुद्गल उवाच यदि क्षत्रियवंशस्थो दीक्षामिच्छति शाश्वतीम् काणेशीं शृणुवक्ष्यामि विधिं तस्य प्रजापदे ब्राह्मणस्यैव हस्तेन कारये दे ददादराद मन्त्रमात्रम् जपेत्सोऽपि परित्यज्य दण्डादिकमशेषदः गणपत्यो भवेत्सोऽपि क्षत्रियो नात्र संशयः वैश्यस्वृत्तिजं कर्म क्रयविक्रयकं त्यजे तदो गणेशस्य दीक्षायां योग्यतामियाद शूद्राणां नाममन्त्रश्च वक्तव्यो ब्राह्मणैः सदा किंसादिकमधो त्यक्त्वा शूद्रो दीक्षां लभेत्पराम् नाममन्त्रेण सर्वं वैकुर्यात् शूद्रस्वयंविधिं गणेश्वरस्य पूजादि न श्लोकादिसमुच्चरेद न होमादिभवं कर्म प्रायच्छित्तम् चरेत चरेत्तथा गणपत्यो भवेच्छूद्रो दीक्षायुक्तो महायशाः गणेशदीक्षया भवे महायशा भवेद्विपधगो यदि स एव विघ्नसंयुक्तो भविष्यदिप्रकोपतः अधदीक्षितजन्तूनां चिह्नानि ते वदाम्यहम् तैर्य उक्तान् गणपत्यान् परान जानादि परान् प्रादस्नानादिकं कृत्वा सन्ध्यां शाखोक्तमार्गतः आगमोक्तं च वेदोक्तां पूजां कृत्वा समापयेद अर्चनं द्वादशाङ्गेषु ह्य कुर्यान् मन्त्रपूर्वकम् सर्वाङ्गलेपनेनैव तत्र मन्त्रान् शृणु प्रभो गणेशोच्छिष्टगन्धं वै गृह्यादौ नियतोऽन्यसेद स्वानन्दवासिने जत्वा नमो मूर्धानमर्चयेद् ललाडं गणनाधाय नम उच्चार्य चार्चयेद दक्षिणं कर्णमूलं च गजकर्णाय वै नमः वामकर्णं तथा दक्षशूर्पकर्णायदे नमः अर्चयेच्च तदः कण्ठं विघ्नेशाय तधः पठन् बाहुं दक्षिणगं तद्वधेरम्बाय नमोर्चयेद वामम् समर्चयेत्सुज्ञसिद्धिनादाय वै नमः हृदयम् चार्चयेत्तत्र बुद्धीशाय नमो विते उदरम् नाभिसंस्थानम् नमो लम्बोदराय ते दक्षिणम् चैव पुक्षिं स वक्रतुण्डाय वै नमः वामम् तु चिन्तामणयेह्यर्चयेन्नात्र संशयः पृष्ठदेशं नाभिः सममर्चयेद्ढुण्ढये नमः येदे द्वादशमन्त्राश्च कथितास्ते प्रजापदे ललाडं चार्चयेत्सुज्ञः सर्वभद्रविधानदः अङ्गानिश तथा दक्ष नाभेरूर्ध्वं समर्चयेद् सर्वाङ्गलेपनं शस्तं गणेशानां विशेषदः रक्तचन्दनसंयुक्तो गन्धस्तेषां मदः सदा मालां शमी भवां वापि प्रभो मन्दारवृक्षजां प्रशस्तां स्वगले बाहौ सर्वसिद्धिप्रदायिनीं धारयन्नात्र सन्देहो देवकाष्ठप्रमाणदः अन्यकाष्ठभव मालां धारयन्न कदाचन वैष्णवानां यथा दक्ष तुलसी काष्ठसम्भवा तथा वै गणपत्यानां शमीमन्दारसम्भवा तदभावे प्रजानाध विद्रुमजां तु धारयेद अथवा क्षमयी मालां धारयेन्मन्दमार्गदः सदा शुचिस्वभावस्थो मित्रशत्रुत्ववर्जितः द्वन्द्वभावविनिर्मुक्तो गाणपत्यश्चरेन्महीम् शुक्लकृष्णचतुर्थीजं व्रतं नित्यं समाचरेद गाणपत्यानि सर्वाणि व्रतानि श्रद्धयान्वितः अन्यदेव प्रियं दक्षव्रतं तीर्थं चरेत् तथा सर्वं प्रतिष्ठितं क्षेत्राणि अन्यानिषक्तियुक्तश्चेत् निश्चितं मुनिभिः पुरा यथा गणेश्वरो देवः सर्वेषामादिपूज्यकः अन्यदेवस्य भक्तानां तथा तस्य व्रतादिकं गणेशानां यथा दक्ष एक एव गणेश्वरः आवश्यकेन तद्वद्व्रदतादिकं च समाचरेत् सदा गणेशनाम्नश्च कीर्तनं तत्र वर्तते कथा नानाविधारम्या कथयन्ति परस्परं चरित्राणि गणेशस्य गायेयुर्हर्षसंयुधाः पात्रीभूतान् जनान् दृष्ट्वा बोधयन्ति सुसिद्धये अत्र ते कथयिष्यामि संवादं नारदेन्द्रजं एकदा नारदो योगी भ्रमन्निन्द्रं समाययौ इन्द्रेण पूजितसोऽपि गणेशं गानमाकरोद सम्प्रणम्य महेन्द्रश्च जगादवाक्यमुत्तमम् इन्द्र उवाच वदब्रह्मन्महाभागचिह्नानि गणपात्मनाम् कश्चिह्नैः संयुदा नित्यम् गणपत्याश्चरन्तिः नारद उवाच सर्वाङ्गे चन्दनालेपो रक्तचन्दनसंयुगः शमी मालाच तषा हस्ते गले भवद सदा गणेश्रवणे तत् स्मृता इमे बुधाः द्वन्द्वस्य भावो भवेत कदाये ये योग धरासु निर्मलाः गाणेश्वरा वन्दनशीलकाः सदा तान् गाणपत्यान् प्रवदन्ति योगिनः नित्यं स्वधर्मेण च संयुतास्तथा न मानयन्ति कदा भक्तौ निमग्ना गणराजवर्त्मनि तान् गाणपत्यान् प्रवदन्ति योगिनः नस्तानगेहाधिकमाश्रयन्ति ये प्रारब्धमात्रेत्यवलम्बिनोपरि चिन्तामणौ चित्तनिवेशकाः सदा तान् गाणपत्यान् प्रवदीन स्रौदे तथा भवेशुक संसक देहा गणराजसिद्धये, गणराज सिद्ध समर्प्य कर्मा सम्य नैजपेता प्रवदि योगिन निन्दां स्तुतिं वीक्ष्य विकारवर्जिता कान्तासुवर्णादिषु भावहीनकाः प्राडन्ति विघ्नेश्वरभक्तिलालसा तान् गणपत्यान् प्रवदन्दि योगिनः आचादितायेन च भावितास्थिरस्कृदा देववरिष्ठभोजिनः जीवैर्हदा दोषविहीनचेतसस्तान् गणपत्यान् प्रवदन्ति योगिनः नेच्छन्ति कैलासविकुण्ठकादिकं न ब्रह्मभूयं न भक्तिं सदेच्छन्ति गणेशभाविकान् तान् गाणपत्यान् प्रवदन्ति योगिनः मुद्गल उवाच एवमुक्त्वा महेन्द्रं स नारदस्वेच्छया मुनिः ययौ विघ्नेश्वरं गायन्यत्र तत्र प्रजापदे एतत् ते स्वरूपं कथितं मया श्रवणात्पापसम्भुधमज्ञानं नाशमाव्रजेद ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते गाणपथ्यस्वरूपवर्णनं नाम चतुर्विंशतितमोऽध्यायः ओ